हरि ओं सीताराम श्री सीतारामचन्द्राभ्य नमः अथ श्रीमदध्यात्मरामायणे युद्धकाण्डे षष्ठ सर्गः श्रीमहादेव उवाच श्रुत्वा युद्धे बलं नष्टम् अतिकाय मुखं महे रावणो दुःखसन्तप्त क्रोधेन महतावृतः निधायन्द्रजितं लङ्का रक्षणार्थं महद्युतिः स्वयं जगामायुधाय रामेण स राक्षसः दिव्यं चन्दन्मारुह्य सर्वशस्त्रास्त्रसंयुतं राममैवाभिदुद्राव राक्षसेन्द्रो महाबल वानरान् दोषो हत्वा बाणै आशी विशोपमयि पापयामासुग्रीव प्रमुखान् यूथनायकान् गदापाणिमासत्तम् तत्र दृष्ट्वा विभीषणम् उत्सजय महाशक्तिम् मया दत्ताम् विभीषणे तामापतन्तीमालोक्य विभीषण विघातिनीम् दत्ताभयम् रामेण वधारो नायमासुर इत्युक्त्वा लक्ष्मणो भीमम् विभीषणस्य पुरतः स शक्ति लक्ष्मणसनुषामोघशक्तितः यावन्त्यशक्त लोके मायाया सम्भवन्ति तासामाधारभूतस्य लक्ष्मणस्य मात्मनः मायाशक्त्या भवेत् किं वा येषांस्य तथापि मानुषम् भावं आपन्न तदनुवृतः मूर्छितो पतितो भूमौ तम् मादातुं दशानन हस्ततोरयितुं शक्तौ न बभू वाति विस्मितः सर्वश्च जगतः सारं विराजम् कथं लोकाश्रयं विष्णुं तोलये लघु रक्षस कामं सौमित्रिम् रावणम् वीक्ष्य मारुतिः अजघनोर्तिक्रुद्ध वज्रकल्पेन मुष्टिन तेन मुष्टिप्रहारेण चानुभ्यामपतद्भुवि अस्य च नेत्रश्रवणै उद्भमन्द्रुजिरम्बु विघूर्णमानयन्नोपस्थपाविशत् अथ लक्ष्मणमादाय हनुमान् रावणार्जितम् अनयद राम सामीप्यम् बहुभ्यां परिगृह्यतम् हनुमन्तः सुरत्वेन भक्त्या च परमेश्वरः लघुत्वम् नगमद्देवो गुरूणां गुरुरप्य सा शक्तिरपि त्यक्त्वा ज्ञात्वा नारायणांशजम् रावणस्य रतं प्रागात् संन्यामवापि जग्राहे बाणासनमथुरिश रामैवाभि दुद्राव दृष्ट्वा रामोऽपि तं क्रुधा अरोह जगतां नाथो हनुमन्त रावणं दृष्ट्वा दुद्रा, अभिरुद्राव राघवे जीव्रं वज्रनिष्पेषरम् रामरोगम्बीर्यावाच राक्षसेन्द्रमुवाच राक्षसाधमतिष्ठाद्य मे पुरः कृत्वा पराधमेवं मे सर्वत्र समदर्शिनः येन नियता राक्षसास्ते जलाञ्जनालये तेनैव त्वा मरिष्यामि तिष्ठाद्य मम गोचरे श्रीरामस्य च श्रुत्वा रावणो मारुतात्मझम् वहन्तं रागमं संख्ये शरैतीक्ष्णैर्ताडयत् अतस्यापि शरैतीक्ष्णैः वायुसो वाय। नो स्वतेजसा व्यवर्ध च पुनर्तेजो ननर्ध च महकपि सतो दृष्टा हनुमन्तं सव्रणं रघुसप्तमः क्रोधमाहारयामास काल रुद्रैव अपरः शाश्वं रतं शत्रोघं धनुरञ्जता चत्रं पदाकां तरसा चिच्छेदशतसायकै ततो महाणाचु रावणं रघुसप्तमः दिव्याध वज्रकल्पेन पाकारीरिव पर्वतं रामः वीर शचालय च मुमोह च हस्तान्नि पतित चाप तं समीक्ष्य अर्थचन्द्रेण चिच्छेद तत्किरी तम् रविप्रभम् अनुजानामि गच्छत्तम् इदानीम् बाणपीडितः प्रविश लङ्कामाश्वस्य शप्पश्च शिबलम् अभ रामबाणेन संविधो अतदत्तोऽथ रावण महत्या लज्जया युक्तो लङ्काम् प्राविश धातुरः रामोऽपि लक्ष्मणम् दृष्ट्वा मूर्छितं पतितं भुवि मानुष तम् उपाश्रित्य लीलया नु शुचोचः ततप्राय हनुमन्तं वस्त्रीव लक्ष्मणं महोदधि समानीय पूर्ववद्वानरानपि तथेति राघवर्णोक्तो जगामाशु महकपि हनुमान् वायुवेगेन क्षणाप्ती महोदधिम् एतस्मिन् अन्तरे चारा रावणाय न्यवेदयन् रामेण प्रेषितो देवे हनुमान् क्षीरसागरं गतो नेतुं लक्ष्मणस्य जीवनार्थम् औषधि श्रुत्वा तच्चार वचनं राजा चिन्ता पुरो भवेत् एकाकी कालने गृहं क्षणयत् गृहाय तं रावणं विस्मयन् वितः कालनेमि उवाचेदम् प्राञ्जलिभयविह्वल अर्ह्यादिकं तत् कृत्वा रावणस्य ग्रथस्य किं चे करोमि राजेन्द्र किम् आगमनकारणम् कालनेमिमुवाचेदम् रावणो दुःखपीडितः ममापि कालवशतः कष्टम् मया शक्या हतो वीरो लक्ष्मण पतितो भुवि तं तुमाने ओषधी तुम हनुमान् गतः यथा तस्य भवेद्विघ्न तथा कुरु महमते बाह्यया मुनिवेशेण मोहयस्व महगपिं कालत्ययो यथा भूयात् तथा कृत्व <clears throat> मन्दिरे रावणस्य वच श्रुत्वा कालने मीर्वाचतम् रावणेशैवचो मेद्य श्रृणोधारय तत्त्वतः प्रियम् ते कर्वाण्येव न प्राणान् धारयाम्यहम् मारिचस्य यथारण्ये पुराभवन्मृगरूपिणः तथैव मेन सन्देहो च पौत्रा च बान्धवा राक्षसाक्षते दासयित्वा सुरगुलम् जीविते नापि किं तव राज्ये न वासीतया वा किं देहेन जगात्मना सीतां प्रयच्छ रामाय राज्यं देहि विभीषणे परं याहि रम्यं मो निगणाश्रयं प्रातः शुभयले कृत्वा सन्ध्याधिका क्रिया तत एकान्तमाश्रित्य सुखासन परिग्रह विसृज सर्वदा संगं इतरान् विषयान् बहि बहि प्रवृत्ताक्षणं गणम् क्षणैः प्रत्यय प्रवाहय्य प्रकृतेर्भिन्नमात्मानं विचार्य सदा नघ चराचरं जगत्कृष्णम् देहबुद्धिन्द्रियाधिकम् अब्रह्मस्तम्भ दृश्यते श्रूयते च यत् तैषा प्रभूति इत्युक्ता सैव मायेति कीर्तितः सर्गस्थितिविनाशानां जगद्वृक्षस्य कारणं लोहितश्वेत कृष्णादि प्रया श्रोह्यति सर्वदा कर्मक्रोधादिपुत्राद्यान् हिंसातृष्णादिकन्यक मोहयत्य निशं देवम् आत्मानं सुणैर्विभुम् कर्तृत्व भोक्तद् मुखान् सगुणानात्मनीश्वरे आरोप्य स वचम् सर्वदा शुद्धोऽप्यात्मा यया युक्तः पश्यतीव सदा बहिः यदा सद्गुरुणा बोध्यते बोधरूपिण निवृत्त दृष्ट्यात्मानम् पश्यत्येव सदा स्फटम् जीवन्मुक्तः सदा देहि मुच्यते प्राकृते तमप्येवं सदात्मानं विचार्य नियतेन्द्रियः प्रकृतेरन्यमात्मानं ज्ञात्वा मुक्तो भविष्यति ज्ञातुं यद्य समर्थोति स गुणं देवमाश्रय हृत्पद्मकर्णके शर्णपीठे मणिगणान्विते मदुट्लक्ष्णातरे तत्र जानक्या स संस्थितम् वीरासनं विशालाक्षं विद्युत्पुञ्जनिभाम्बरं किरीटैहारकेयूर कौसुभादिभिरन्वितं न पुरैकडगैर्भान्दम् तत्रैव वनमालय लक्ष्मणेन धनुर्द्वन्द्व करेण परिसेवितम् एवं जाता सदात्मानम् रामं सर्वहृदि स्थितं भक्त्या परमया युक्तो मोच्यते नात्र संशयः तृणो वै चरितं तस्य भक्ते नित्यमन्यधि एवं चेत कुतपूर्वाणि पापानि च महान्त्यपि क्षणादेव विनश्यन्ति यथाग्रे तूलराशयः भजस्व रामं परिपूर्णमेकम् विहाय वैरं निजभक्तियोक्त मृदासदाभावितभावरूपम् अनामरूपं पुरुषं पुराणम् इति श्रीमदध्यात्मरामायणे उमामिश्रसंवादे युद्धकाण्डे षष्ठ सर्ग श्रीसीतारामचन्द्रार्पणमस्तु